अथ प्रजरनादिसर्वाङ्गपर्यन्तम् न्यासः षष्ठः शिवाय नमः ओ प्रजरणे ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोरिन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादित्यौ तिष्ठेताम् कर्णयोरश्विनौ तिष्ठेताम् ललाटे रुद्रास्तिष्ठन्तु मूर्ध्न्यादित्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायाम् वामदेवस्तिष्ठतु पृष्ठेऽपि नाकी तिष्ठतु पुरतः शूली तिष्ठतु पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो सर्वादेवता तर्विर्ज्वालावृतस्ति देता यहानमं मक्ष यजम सहकुटुब रक्षन सर्वान्महाजना अग्निर्मे वाचिश्रितः पाह्दये हृदयं मयी अहममृतेः अमृतं ब्रह्मणी वायुर्मेः प्राणे प्राणो हृदये हृदयं मयी अहमृते अमृतम् ब्रह्मणी सूर्यो मे चक्षुषिश्रितः चक्षुर्हृदये हृदयं मयी अहममृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि मनोहृदये हृदयं मयी अहममृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रेः श्रिताः श्रोत्रघुंहृदये हृदयं मयी अहममृतेः अमृतम् ब्रह्मणी आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयी अहममृतेः अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रिता शरीरगं हृदये हृदयं मयी अहमृतेः अमृतं ब्रह्मणि ओषधि वनस्पतयो मे लोमसश्रिताः लोमानि हृदये हृदयं मयी अहममृतेः अमृतम् ब्रह्मणि इन्द्रो मे बले श्रितः बलगुंहृदये हृदयंमयी अहममृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रितः मूर्ध्वा हृदये हृदयंमयी अहमृते अमृतं ब्रह्मणि ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयंमयी अहममृतेः अमृतम् ब्रह्मणि आत्मा महात्मनि श्रितः आत्मा हृदये हृदयंमयी अहममृतेः अमृतम् ब्रह्मणि पुनर्महात्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरोरश्मिभिर्वावृधा गोपाः